पनटां दशमं वेदं चरित्रं चातस्य ध्रुवकुल एव तुङ्गकीर्ते अङ्गस्य व्यजनिसुदस्स वेन नाम तद्दोषं यदि तमधिस्तराजवन्यक त्वेन निगितमना वनं गतो भोन्त् पापोऽपि श्रीदितलपालनाय वेनक मोराक्षैः उपनिषेदकठोरविण्यक सर्वेभ्यो निजबलमेव सम्प्रशंस गोचक्रे कवय जनान्य सेत् सम्प्राप्ते हितकथनायता बसौज्ञे मत्तोन्यो भुवनपदे न गच्छने खे तु वचनपरो मुनेश्वरैस्तै शापाप्नो शलपदसां मन इेन कुलनाशाजन बेरुगै तदङ्गे त्यक्ता के परिमदिता द दोर्दण्डादे दोर्दण्डे परिमदिते त्वमाभिराशिके विज्ञात प्रदोरोदिता बसोके शोधके परिणोद भावे गौरिक वेनाड्य वी कपलिद सम्पदं धरेन्द्रे आक्रान्दा निज धनुषा समाम् भूक्यस्तां निजकुलमुख्यवत्सयुक्तैः देवोध्ये दे, समुचित अह्लादीन् अभिलषितानि यानितानि स्वच्छन्द सुरभितनो मधोदक स्वा आत्मानं यजति मघाम आरब्धे शददमवाजि मेधया घे स्पर्धालुश्च वेषक कृत्वाश्वजितो बोत् देभेत्रो मुकुरिति बोधिरं करन्त मुनिवरमण्डले जघोषो वृन्दने कमल भवे क्रदो समाप्तौ साक्षात्म मधुरिपुमैक्षद स्वयं स्व दत्तता परमु बलव्यभक्तिमेका गङ्गा दे देव वेदपदः कदापि देव सत्रस्थो मुनिनि मका हि दान् संस ऐश्च सनकमुखात् मुनिन् पुरस्तात् विख्यानं शनकमुखोतिदं तदानक सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द गोविन्द <coughs> पतम्ब दशकम् प्राचीन प्राचीनबर्गी अपि राजा ओडक्रतोस्तु नप्तां बृदतान्मकल् मठक प्राचीनबर्गीर्युवदौषधौ प्रचेदसो नाम चुचेदश सुदन् अजिजन करुणां कुरानि व पितु शृक्षा निरतस्य शनात् भवत्तपस्या निरता दशाभिते पयोनिधिं तदत्तडे सरोवरं सन्ददृशं मनोकरं तथा भवत्येतमिदं समागतो भवो भव सेवकदर्शनोद्धृत प्रकाशमासाद्य पुरप्रचेदसा उपादिशद्भक्ततमस्तवस्तमास्तभं जपन्तस्तममे जलान्तरे bavantamase vishadoyutam samakha bavaso khasvadarasadame shriyonne पपो वकालो धृभवल् न शीघ्रथा तपोऽपि रेषां हरिमार्तवर्तृभिखे स यज्ञ हिंसा निरतोऽपि पामितख पितापि देषां कृगया ध नारदप्रदर्शिदात्मा भवदात्मथज्ञयो कृपा बलेनैव पुरप्रचेदसा प्रकाशमा केन्द्र वा कनक विरजि चक्रादि वरा प्रचेदसां ताबया च तमपि त्वमेव कारुण्यभरात् भर नदोका भवत्वि चिन्तापि शिवाय देहिनां भवत् वसौ रुद्रनुदे च कामता अवाप्यकान्तां तनया महेरुकां तया रमध्वं दशलक्षवत्सरे स्वदोस्तु दक्षो ननु न्यगतो मुदै्वतान् तदश्च ते भूतलरो दिनस्तरोन् कृदा दहन्तो दृगिणेन वारिता क्रिमैश्च दत्तां तनयामवाभ्यतां तदुक्तकालं सुखिनोभिरेमिरे अवाभ्यदक्षं स सुदं प्रचेदसो नारदलब्धया धिया अवा तदा विदक त्वमीश सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द गोविन्द इरवदा दशकं ऋषभोपाख्यानं प्रियव्रतस्य प्रियपुत्रभूतात् आत्मीन्द्रराजा तु त्वं ऋष्टवान् इष्टदमिष्टिमध्ये तवैव तुष्टे कृतयज्ञकर्मा अभिष्टुतस्तत्र मुनीश्वरे स्वां राज्ञस्वतुल्या सुधमज्यमोनक स्वयं जनिष्ठे कमिदे ब्रुमोणक तिरोतथा पर्यशिवेश्व ते नाभिप्रियायां मतमे हृदेव्यां त्वमं च भोर् ऋषभाभितोनक लोक सामान्यगुण प्रभाव प्रपादित शेष जन प्रमोदक त्वयि निदाय नभि सगमेरु देव्या तपोवनं प्राप्य भवन्निषेवे कदा किलानन्दपदं पदं ते इन्द्रस्त्वदुत्कर्षकृदोदमर्ष ते भवर्ष नोऽस्मि अजना भवर्षे यदा तदात्मा निजयोगशज्ञा स्ववर्ष मेन व्यदता सुवर्षा चिदेन्द्र दत्तां कमनीं जयन्ते अधोत्व आत्मरथा चयोपे अजीजन तत्र सदं दनो जेषां क्षितिशो भरदोऽग्रजन्मा न वा भव योगि वरान् सैका त्वचे देस्तभचे शपुत्रा का तपो भलात् भो सुर भूयमेयुका उक्त्वा सुदेप्योत मोरेन्द्रमध्ये विरक्तिभक्त्य मुक्तिमार्गं परात्मभूतोऽपि परोभदेशं कुर्मभवान् सद्भनिरस्य मोनक विकारकीनो विचचार कृष्णा महीं महीनात्मरसा विलीनक चयोवृदं को मृगकाकचर्यां चिरं चरं नाप्यकरं स्वरूपं तवा कृता चलेतां ममा पा कुर्वातनात् सर्वत्र गोविन्दनामसंकीर्तनं गोविंदा, गोविंदा... इतो जडभर चरित्रम् इ नारायण कर भ उडो अनन्तराम दीक्षिता इ्यमान सेप्टर् त्वद्भक्तवजो भरतो महात्मा निक्षिप्य राजा तनयेष्वशक्तः सकण्ठकीर्तीरमवाप राजा त्वजनाथ पुलकाश्रमं हे तत्राभि स त्वां तुलसीभिरीश कृष्णं समर्थ गुरुबाधनाथ द्यायं प्रपञ्च भवदङ्गभूत निनायकोलं प्रणवं जपं च हे चो गोविंद कृषी कनाथ हे नन्द कृष्ण अचुद माधुमीते स्वप्नेऽपि राजा भवदीयनामान्यना रता सङ्कथय न नाम किरीटिनं कुण्डलिनं गदाब् च शङ्खारिपाणिं नवनीरतापं कुन्तापदन्ता कमनीयगात्र प्रेताम्बर त्वां मनसा स्मरत्सखमन्तारमाला मनोकरं मञ्जुलभाषणम् दिव्योर्त्त्व पुहुरत् नभोषा मुक्ताधिकारं मनसा स्मरत् नदी नदीतटे स्म जबधित् तृषा गुलाका सखद् वा तया करे वारिणि पीयमाने जगज्जसिंहो जनयन् स्वीतमा वेत्या मृकी सा सगसोत्पदन्ते पपादकुल्मे तम रमे बालं मृगं योनि विनिश्रुदन्ता जग्राकराजा कृपया जलोट मात्रा विहीनं परिपालयन् सख तत्पोजनात् पृष्टमना बपूव प्राप्तेन्दकाले सुधवभृतन्ता पश्च मृगा प्राप मृगस्य जन्म प्राप्तो मृगत्वा पुलकाश्रमे ञ्जरा दे त्यचारभूयग श्र समाजे च कथां बृगत्वा त्यजन्ततो चे भवदीय नाम आस्यां मृगत्वा भरतो महात्मा मेदस्तु शङ्कान् मनसा स्मरं स्वां जले स्थितस्य हरे नमस्ते नारायणा एति ना जगादशो चेहे तदो भागवतो महा महात्मा राजर्षिवन्यो परधस्तु जातक विप्रान् बमोये भवद स्वरूपा त्याज्जटो मद्भवता सलोके अनावृताङ्को हिमबाधवर्षेषो अतीवपि वा मलिनैकवस्त्रग यदृच्छया याचनतोऽभिलब्धो हष्टं सदा त्वां मनसा स्मरत् सग श्रीभद्रकौल्ये भव दङ्ग्रिभक्तो बलिं प्रदाता ददते स्म चोरक दुष्टस्य सा सानुचरस्य देवे चिरांसि चिच्छेद काशिना तथा त्वद्वादभक्ता गुरुवादनाथ को वा निको प्रभवेत् परात्मने मां पाकि सौवीरसिंहो रदिपः समाकात् त्वध्यानपूता जटभिप्रमेण स्वयानबं तरसा चकार हिंसाधिकेनस्य मुने स्वदृष्ट्या पूते चरणप्रवृत्तिके एतं गदे स्म चिपिका चाल जरा वाल् न मे को भगसे दीर्घं चिरं नचिमे शिबिका भवन्ति ते उवाच राजा बभदं क्रिभक्ता इत्यादि वक्रोर्तिरर्थितो मे गर्भे न राज्ञा भगवदास विप्रे के मम त्वाध्यभिमान्यशून्य त्वां संस्मरन् नोत्तरम् ग किञ्चित् पुनश्च योने विषमं गदे स जीवनृतो मां मवमन्यसे त्वं भजिष्यसे त्वं प्रकृतिं यत स्वां कोट्यां तदे त्वदीयं स्थौल्यं कृशत्वं च रुजाधयोन्ये ते केन भवन्ते मौनेन शून्यश्च न स गिराज ऋत्यागयोगे त्वयि बद्धभावक देहो मयोयं बहुचक्षिदोस्ते पुनश्च चिक्षा यदि पिष्टक स्थितोऽस्म्यकं स्वप्रकृतौ गिराजन् एकप्रमेतो गुरुवातनाथ श्रुत्वा तु राजा भगुयोगचास्रं मगतस्तरयो भरुकूले निपपादभक्त्या क्षमा रणैकचित् कस्त्वं का महात्मा चरसि गूढग ब्रह्मं त्वं से किल यज्ञसूत्रम् प्रदृश्यते कोक्यवधूतमध्ये वेत्य सर्वं त्वमेत्येति किल त्वयोक्ता जलस्य पानेन कथं भवेदि ज्ञवदत्तरे स कथं न राज व्यवहारमेन तत्त्वेन तुल्यं व्यदसि यदज्ञातिजन्मानिधुचेदशासुको नित्यागविप्रो गुरुबाधनाथ भ्रातृव्यमेत मनयेवराजन् सेवासिना सद्गुरपादयोस्तद् चिन्देत्युवाचादर गोगणं सग मामपा चिरों का मरता लय से प्रणम जरा जा जड विप्रमेण पुनश्च वप्रच्छमरुत्पुरेश नष्टो विवेको मृदुं यवाच तदा विदृश्य कथमेत्यसत्यं संसारमेत्य त्वमतोपदिश्य प्रपञ्चमेत्य त्वमुपाधिचत्सख तत्रोपनिष्टो भवदस्वरूपा सर्वत्र पश्येतरिणश्वरं यत् चरणप्रथिम्ब्यां तव प्रत्यवर्गक संदृश्यते चाभि पदाधिकानि हंसोढयानस्तरगो गणाते सर्वं तु दृश्य ह्य सदा गविष्णो पिण्डस्वकेतो स्वकेतो परमाणु संज्ञे अज्ञानक्लिप्तस्य च मारुते च त्वय्येव चारोपि दयेत्युमाच विनश्चेत् दीपेन रज्जोतमसा प्रदीतगानेन चाद्यश्च जगश्च नश्चेत् त्वमेव भासेत्य वदत् श्रीशङ्खचक्राजगता किरेट हरे भवान् मङ्गलमङ्गलेशग श्रीवासुदेवस्तु सदा सुपूर्णक ज्ञानात्मना स्वदत्सपूपा श्रीवासुदेवस्तु जगत्समस्ता ज्ञानं हरे सत्यमिति ज्ञगायेद् एदच्च नाप्नोति मगातिनापे विना मगत्पादरजोऽभिषेकम् अहं पुरासम भरदाख्यभूपक विसृज्य राज्यं हरिपूजनार्थं वनं गदस्तत्र मृगत्वमापा इत्यागभोपां स च मारुतेश कृष्णार्चनेन मृदिरस्तिमेद्य पुरा मृगत्वे वितथा नष्टा वेदस्तु सङ्घात् विचरामि राजा तदस्तु राजा जडविप्रमेणो स्तुत्वा च नत्वा च मरुत्पुरेश मुघूर्तमात्रेण दवात्यसङ्गात् मोघप्रनष्टस्त्वदि च प्रविंसक डको घणो य जडविप्रसङ्गते विनष्ट दुःखो भवदधविध्यक किं किं न कुण्यान् मगधस्तु सङ्गक मां पाकिरुकान् मरुतालये श्रीभट्टपाठ रचितवापोन् मरुतालये अनन्तरामेण अनन्तरामे कृते सोस्रे च जायेत जा गुरुप्रसादमा सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द गोविन्द इदशम् ोडवर्णन मद्योद्भवे पुवयळाव्रत नाम्नि वर्षे गौरीप्रधानवनिता जनमात्रभाजे सर्पेण मात्र नो दिपे समुपास्यमाना सङ्कर्षणात् मघमदेश्वर संश्रये त्वां भद्राश्वनामघयळाव्रतपूर्ववर्षे भद्रश्रवो विदृषभि परिणोयमानं कल्पान्तकोटनिकमोतरण भ्रमेण जायामि देव हयसे शदनुं भवन्तो ध्यायामि दक्षिणकथे हरिवर्ष वर्षे प्रह्लादमुख्यपुरुषे परिषेव्यमाणम् उत्तुङ्गशान्त तबलाकृति मेघसोदज्ञानप्रदं नरहरे भगवन् भवन्तो वर्षे प्रदीचि ललितात्मनिके तु माले लीलाभिशेषलितोपनाङ्गं लक्ष्म्या प्रजापद सुदैश्च निषेभ्यमान तस्य प्रिया य धृत कामदनुं भजे त्वां रम्ये प्युतीच्य खलु रम्यकनाम्नि वर्षे तत्पर्षनादमनुवद्य सपञ्चमाणं भक्ते गवत्सलमत् सरकृपान्ता कृतिं भुवननादभजे भवन्तो वर्षं किरण्मय समक् वयमौत्तराकम् आसीनृदिकल्मटकामटाङ्कं संसेवते पितृकणप्रवरोर्यमायो त्वं त्वां भजामि भगवन् परचिन्मयात्मन् किञ्चोत्तरेषु कुरुष प्रियया धरण्याः संसेवितो मयि तमन्त्र नो दे तै दंष्टाग्रकृष्टगनपृष्टगरिष्टवर्ष्मा त्वं पाकि विज्ञवराकमूर्ते यां यां दिशं भजते किं पुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा सीताभिराम परमात्मोदरूपशाले रामात्मकरिलस परिपाकि वृष्मा श्रीनारदेन सखभारद कण्ठमा ारायणो नरमय चाल्मलयुचना मनिबिरूप क्रौञ्चे बोपमदुमयं चे त्वां ब्रह्मरूप पुष्कर नाम् निलोकाः सर्वै त्रुवादिरुडौ प्रकरै ग्रहै च पुच्छाधिकेष्वयवेश्व कल्प्यमानैः मगदामुपास्यक सो वृन्दिनरकं मम सिन्धु चायण पातालमूलपुविशेषधनं भवन्तं लोलैकुण्ठर विराजि हरगदान, सर्वत्र दशकम् अजामिळन् करे अजामिळोन् नाम मये सुरपुर चरणन् विभो धर्मपदान् ग्रहशमे गुरोर्किराकाननमेत्य दृष्टवान् स्वदृष्टशीलां कुलटां मदकुलां स्वदः प्रशान्तोऽपि तदा कृदाशयक स्वदन् मम सृजतया समारमन् अदन्नकारे दशमे भवन् पुनक तदो भवन्ना मयुते सुतेरतिं स्मृत्यकाले यमराज किं कराणे भयङ्करं स्वी विहा पुरा मनाक् स्मृति वासना बलात् चुकाभ नारायणनामकं सुदा दुराचरस्यापि तदा त्वनिर्गदत्वति य नामाक्षरमात्र वैभवात् पुरोऽपि भेदोद्भवति यपार्षदा का चतुर्भुजा पीतपठ मनोकरा का मम च संपाशे विघर्षदो भठोने विमुंच देद्य रुतुं बलतमे निवारीदासे च बवज्जने इस्तथा ततीयपाप निखिलं न्यवेदयन् भवन्तु पापानि कदं तु निष्कृते कृते विभो दण्डनमस्ति पण्डिताका न निष्कृति किं विदिता भवादृशा इति प्रभो तत्पुरुष बभाषिरे श्रुति स्मृतिभ्यां विहिता व्रदादयख पुनन्ति पापं नलुनन्ति वासनाम् अनन्द सेवा कृन्ददे त्वये इदे प्रभो त्वल्पुरुष पभाषिरे अने नभो जन्मसदस्रकोटिभिखे कृतेष्पाष्वभिनिष्कृदि कृता यदृ नाम भयाकुलो हरिखे इदे प्रभो त्वल्पुरुष पभाषिरे तृणामभोत्यापि मुकुन्दकेर्तनं दगत्य घोखान् मगि मासे ृषक यथाग्निरेधांसि यदौषधं गतान् हि ते प्रभो कल्परुषा पभाषिरे इति रिदैर्याम्य पटैर वा श्रुते भवत्पटानां च गणित तिरोगिते भवत् बबत पदम कालमाचरणत्पदं बबत भवत् भटैरसौ स्वकिङ्कर वेदनशङ्कितोऽयमक त्वदङ्ग्रिभक्तेषु न गम्यतामि ते स्वगीयभृत्या हसि षट् शदोच्चकैके सते भवतालय नादपा किमां सर्वत्र गोविन्दनामसङ्गीर्तनं गोविन्द गोविन्द इव मूना दशकं चित्रके अपि कथे प्राचेदशस्त्व भगव अपरोगि दक्षक त्वत्सेवनं व्यदि दशर्गविवृत्तिकोमक हो विदथा लसदटको तस्मै भरो तदि दतां च वधूमसि ज्ञेयं तस्यात्मजायुदमे च पुनः सदर्शो श्रीनारदश्च वचसा तव मार्गमापुखो नैकत्र वा मो चापो भक्तो तमस्त्वरुषिरनुग्रगमे बमिने षष्ट्या तदो तुृभ्य सृजतो कुलघाने दोहित्र सोनरदतस्य च मेश्वरूपक त्वसोस्रवन्मिदमचापयत् द्रमाजो देव त्वदीय महिमा खलु संभजैत्र प्राक्सू रसेन विषये किल चित्रे दोत्र ग्रे गपदि रङ्गीर लब्ध्वैकपुत्रमद तत्र गे सपत्न्य सङ्गैरमुख्य तव च नारदस्तु सममङ्गिरसदयो लुको संप्राप्य तावदु वद सुदस्य जीवं कस्यास्मि पुत्र इति तस्य किरा विमोगं त्यक्त्वा त्वदक्षणविधो ऋपतिं जयुङ्क् सोस्रं च मन्त्रमभि नारदतोदलप् ये शवभुषो ननु ते तपस्य न विद्याकरातिपदितां सगे सप्त रात्रे लब्ध्वाप्यकुण्ठमधिरवभजद्भवन्तं तस्मिं भृणालधवलेन सघ स्वश्रेष्ठपेण बद्धनुदि प्रसन्नक तत्त्वात्मतत्त्वमनुगृह्यतिरोध त्वद्भक्तमौलिरदशोऽ स लक्ष लक्षं वर्षामि हर्षुलमना भुवनेषु कामं शङ्खभयं गुणगणं तव सुन्दरे मिगे शङ्खधिरे गरगितो ललितं चोर अत्यन्तशङ्खविलयाय भवत् प्रणुन्नक नूनं सरोप्य गिरिमाप्यमगत समाजे निशङ्कमङ्क िम् कं शङ्करं परिघसर्वमयापि चेपे निःसम्भ्रमस्त्वयचितचापमोक्षो भृद्रासुरत्वमुपगम्यसुरेन्द्र रोते भक्त्यात्मतत्त्वकथने समरे विचेन् चत्रोरविभ्रममपाशदपदं ते त्वस्येवनेर्यन्द्र वदोत्यथाप्य मरुदो निषेव दत्तात्र सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द गोविन्द दशकम् प्रह्लादचरित्रं नरसिंहावतारम् इरवय सेतु पठिकं हिरण्याक्षे <laughs> पोत्रिं प्रवरवता अदे सगज हिरण्यप्रारम्भक्किपुरमरा प्रदेक्या माते तव किलवधार्थं मधुनिपो मिधारं गोरं सकलु तपसित्वा नचिरदक पुरसाक्षात् कोन्व सुरनरमृगाकेरनिधनो वरं लप् दृप्तो जगदिगभवन्नायगमितो परिचुन्दनिन्द्रात् अगरददिमं त्वाम् अगणयन् निघन्तुं भूयक तव पदमवाप्तस्य च निपो गो बहिर्दृष्टे दधित हृदये सूक्ष्मवपुषा ते च यात्मा या सकलोजिदकाशेन्निबृदे तदोऽ प्रह्लादक समजनिसुतो गद्भवसदो पुणे पेणापाणे केयम् अधिकदभवद्भक्तिमहिमा स वै जात्या दैत्यशिशुरभे समे ज्यैरतिं गदत्वद्भक्तानां वरद परमोदा करणदां सुरारीणां कास्यं तव चरणदास्यं निज सदृष्टा दुष्टात्मा गुरुभिरसि चिरमो गुरुप्रोक्तं चासौ इदमिदमभद्रा य दृढमिति अपाकुर्वन् सर्वो तव चरणभक्ते भवहृदे अधिदेशो श्रेष्ठं किमिति परिपृष्टे तदनये भवद्भक्तिं वर्या अभिकदधिपत्याकुलधृतिः गुरुभ्यो रोषित्वा सगजमधिरस्येत्यभिदन् वधोपायानस्मिन् व्यदनुदभवत्पादशरणे ससूळैराविदकं सुभगमदितो दिक्कजगणेके महासर्पे दष्टो यनश न गदाकारविदुदक गिरीन्द्रावक्षिप्तोऽप्यकम् परमात्म अयि विभो तै नश्चात्मत्वात् किमपि न निपीडात्मभजध तदशङ्का विट्टक् स पुनरजदोष्टोऽस्य जनको गुरुकोत किल वरुणपाचैस्तमरुणदे गुरोश्च सान्निध्ये स पुनरनुकान् दैत्यगणयान् भवद्भक्तेस्तत्त्वं परमम वे विज्ञानमसिषदे पिता सुळव बालप्रकिरमखिलं त्वस्तुति परौ रुशान्तप्राकैनौ कुलगदस्ते बलमिते बलं मे वैकुण्ठक तव च जगता चापि सबलं स एव त्रैलो सकलमिते धीरो यमगदे हरे क्वासो क्वासो सकल जगदात्मा हरि प्रविन्दे स्मस्तम्भो चलिदकरवाल Titi Sudaga Adapas Chautmishno Nayivadi Dumi Shosmi Sagasa Krapatma Vishatmalne पवनपुरवासिन प्रणय मां तम्बे दट्टयतो हिरण्यकशिपो खो कर्णो समचो नयण् अगुण जगदण्डकुण्ठ गुगणो घोरस्तव पुत्रभद श्रुत्वायं किल दैत्यराजकृतये पूर्वं कदा पच्छ्रुतो कम्ब कश्चन सम्पपा चलितोऽभ्यम्भोजपो विष्ठरात् दैत्ये द्यक्षो विसृक्षसक्षुषिमक सम्भ्रम्भिणीस्तम्बदक सम्भोतं नमृकात्मकं न मनुजाकारं वभोस्ते विभो किं किं वेषणमे दधत्पुदमिते व्युद्भ्रान्तचित्ते सुरे विस्फो जद्भलोऽक्ररो वर्ष्मा समाचृम्बता तप्त स्वर्ण सवर्णको नोक्षोड केसर प्रोत्तम्बप्र निताम्बरमको जीया तवेदं बो व्याप्तं व्याप्तमगोधरी सकमुखो गट् गोग्रवल्कल्मगिपाकम दृश्यमा न सुमगा दंष्टाय गोड्ड लिभङ्गभेषणकनो ह्रस्वस्तवीयस्तरग् पीवरदौश्च क्रोरां सुदोरोल्पणो व्योमो लेय गणगनोपमगन प्रत्वान निर्दाभित स्पर्धालुप्रकरं नमामि भवत ग तन्नारसिंहं वभु नूनं विष्णुरयम् निगम्यमुमिते ब्राह्म्यत्कदपिषणो दैतेन्द्रं समपात्रवदमधृताका दोर्भ्यां वृदभ्यामो वीरो निर्गणिदोदकट्कफलके गृह्कण् विचित्रश्रमान् य वृण्व पुनरापपात् भुवनग्रासोत्यदं तमघो ब्राह्म्यं तं ते धिजातमा पुनरभिोद्गृह्य दोर्भ्यां च बात् द्वारे तोर्युके निपात्य न करान् व्युत्काय वक्षो भुवे निर्भृदल् अधिगर्भ संह सिंहारवान् त्यक्त्वाशु रक्तलगरे प्रत्योत्पत्य समस्त दैत्यपटले चाकात्यमाने त्वयि प्राम्यद्भोमिकम्बे ताम्बो दे कुलं व्यालोलशैलोत्करो चरम गो दोस्तां मवसां ददो ताव मां सव पाकराळव गोरान्द्रमालादरो त्वामद्ये सवमित्तरो शमुषितवा दुर्बार कोर्बरभो अभ्येदं न चाक कोऽपि भुवने दूरे स्थिताभिरवक सर्वे सर्व वा प्रत्येकमास्तोषध पूयोऽप्यक्षदरोक्षदाम्नि भवते ब्रह्मख्यया बालके प्रह्लादे पदयो न मध्यबभये कारुण्यपाराकुलक चान्तस्वं करमस्य तस्य कामधियोऽपि ते नितवरं लोकाय चानुग्रग एवं नाटीतरोद्रचित विभो श्रीतापनीयाभितश्रुत्यन्त स्फुटकेत सर्वमयिम अद्य दशद्धा कृते दत्तोत्रिखिलोत्तरं पुनरको गस्फ परो प्रहलाद प्रिय हे मरुन् परवते सर्वमयात्मागिमा प्रह्लाद हे मरुन् पर्वते सर्वमयात्मागिमा प्रह्लाद हे मरुन् पर्वते सर्वमय इरवति आरां दशकं गजेन्द्रमोक्षम् इन्द्रद्युम्नपाण्ट्यकण्ठाधिराजक त्वद्भक्तात्मा चन्दनात्रौ कदाचित् त्वत्सेवायां मग्नतिरालुलोके नैव गस्त्यो प्राप्तमादित्यकामं कुम्भोद्भूति सम्प्रदक्रोधभारक सब्धात्म त्वं हस्तिभूयं भजेते शब्दा तैनो प्रत्यगात्सोऽभिलेभे हस्तेन्द्रत्वस्मृतिं क्तिधन्यं दुग्धां भूतेर्मध्यभाजि त्रिकूटे क्रीडं चैले योतपोयं वचाभिजे सर्वाञ्जनुत्यवर्दिष्टशङ्क्या त्वद्भक्तानां कुत्र नोत्कर्षलोपक शेनस्तेम्ना दिव्यदेकत्वशक्या सोऽयं चेतान् अप्रजान कदाचित् शैलप्रान्ते कर्मदान्तः सरस्यां जग्राहनं सान्द्यर्थं ज्ञेय श्रान्तितोऽसे स्वकानां त्वत्सेवायां वैभवदं निरोत योद्धं तं तं वत्सराणां सघर्षं प्राप्ते काले त्वत्पदे गोग्रे स्ति भव्यं यदा स्वम् आर्तिम व्यक्त प्राक्तनज्ञानभक्तिः सौण्डो क्षिप्तैः पुण्डरीकैः समर्चन् पूर्वाभ्यस्तापिशेषात्मनिष्ठस्रश्रेष्ठ सौन्दकादे परात्मन् श्रुत्वा सहस्रं निर्गुणस्तं समस्तं ब्रह्मेशाज्ञैः नाखमेत्य प्रयोते सर्वात्मात्म भोरिकारुण्यमेकाद् दाक्षारुडक प्रेषितोपो भूरस्ताद् हस्तेन्द्रं त्व हस्तभत्मेन धृत्वा चक्रेण त्वं नक्रवट्यं यधौरिके गन्धर्वे स्म मुक्तचापेशस्ते तत्सारूप्यं प्राप्यदे देप्यदे स्म एधृत्त्वां च मां च प्रज्ञेहो गाय ensoyam boja se sreyasention te deokinam devasartam gadasva deshyam vesha pagiva taleyase sarvatra gobinda nama sangeetanam gobinda gobinda 27th <coughs> dashakam अमृतमदनवर्णनं दुर्वासा सुरवनिताप्तदिं व्यमाल्यं चक्रूय स्वयमुभताय तत्र भूयक न केन्द्र प्रति मृदुते च जानां चापेन प्रदिदझरे ध निर्जरेन्द्रे देवीष्व सुरजितेषु निष्प्रवेशो सद्वात्या कमलजमेत्य सद्वदेवा प्रभव समं भवन्तमापुको ब्रह्मा के स्तुदमीमाचिरं तदानीयं प्रादुष्यद पुरप्परेण दाम्ना हे देवातिधिजकुलैर्भिधाय सन्धिं पीयूषं परिमदते धिपर्यचास्म सन्तानं कृतवधि दानवै स्वरुघे मन्तानं नयधिमते न मन्तरोत्रिं वृष्टेस्मिन् बदरमिवोद्भगं कथिन्द्रे ं विनिधवान् पयपयोदो आदौ यत्र दमदवासि किं वरत्रा पादोदो विनिगिद सर्वदी जले प्रारप्ते मदन विदौ सुर सुरैस्तैः व्याज करो सुरीण शुभो द्रोषविद जलोदरे तदोन्य दुग्धाब्दो गोरोदर पारदो निमग्ने देवेषु व्यजिततमेषु तत्प्रियैषे प्राणैषि कमठतनं कठोरप्रष्णां वज्रोधिस्थिरतरकत्परेण वेष्टां विस्तारात् परिगदलक्षयो जनेन अम्बोदे गोगरकदेन लक्ष्मणोत्ताम् निर्मग्नं क्षिदितरनादमुन्निनेत उन्मग्ने जडिदि तदा धरन्दरेन्द्रे ने आविश त्विदय कणे वैवशं परिशमयन्न उद्दामभ्रमण जवो नैस्थिरतरकस्तप अभ्रान्ते विधिगिरिषाद प्रमो धात पुष्पवर्षाका दैत्योगे उजगमुखि नप्ते वा त्रिदशकुलेपि किञ्चित् कारुण्या तव किल देव वारि वा काक प्रवर्ष अमरगण न दैत्यसङ्गान्रम्य भगवति मिनक्रचक्रवाले तत्प्राप्तौ चिरमदिते ं करयुग कृष्ण सर्परोजक सम्राजन् पवन पुरेश पा गिरोकात् सर्वत्र गोविन्द नाम गोविंदा, गोविंदा गोविन्द <coughs>